ोऽवतीर्यततो राजा खड्गमुद्धृत्य निर्मलम् इयेष मूर्धानं, छेत्तुं परमदुर्मतिः ससान्त्वयं सदाकं संहसन् क्रोधवशानुगम् राजन्ननुनयामास वसुदेवो महामतिः अहिंस्यां प्रमदामाहुः सर्वधर्मेशु पार्थिवा अकस्मादबलां नारीं हन्तासी मामनागसीम् यच्च तेऽत्रभयम् राजन् शक्यते बाधितुम् त्वया इयम् च शक्या पालयितुम् समयश्चैव रक्षितुम् अस्यास्त्वमष्टमम् गर्भम् जातमातृम् महीपते विध्वम्स यतदा प्राप्तमेवम् परिहृतम् भवेत् एवम् स कथितो वसुदेवेन भारत तस्य तद्वचनम् चक्रेषूरसेनाधिपस्तदा ततस्तस्याम् सम्बभूवुः कुमारा सूर्यवर्चसः जाताञ्जातां स्तुतान् सर्वाञ्जघान मधुरेश्वरः अथ तस्याम् समभवद् बलदेवस्तु सप्तमः यां ययामाययातम् तूयमो राजा विशाम्पते देवत्या गर्भमतुलम् रोहिण्या जठरे आकृष्यकर्षणात् सम्यक् सङ्कर्षण इति स्मृतः बलश्रेष्ठतया तस्य बलदेव इति स्मृतः पुनस्तस्यां समभवदष्टमो मधुसूदनः तस्य गर्भस्य रक्षां तु चक्रे सोऽभ्यधिकं नृपः ततःकाले रक्षणार्थं वसुदेवस्य सात्वतः उग्रः प्रयुक्तः कंसेन सचिवः विमूढेषु प्रभावेन बालस्यो तत्र वै उपागम्य स घोषेतो जगामस महाद्युतिः जातमात्रम् वासुदेवमथा कृष्य पिता ततः उपजह्रे परिकृतां सुतां गोपस्य कस्यचित् मुमुक्षमाणस्तम् शब्दम् देवदूतस्य पार्थिवः जघानकम् सस्ताम् कन्याम् प्रहसन्ती आर्येति वासती शब्दम् तस्मादार्येति कीर्तिता एवं तं वञ्चयित्वा च राजानं च महामतिः वासुदेवम् महात्मानम् वर्धयामा च गोकुले वासुदेवोऽपि गोपेषु ववृधेऽब्जमिवम्भसि अज्ञायमानः कंसेन गूढोऽग्निरिवदारुषु विप्रचक्रेथतान् सर्वान् वल्लवान् मधुरेश्वरः वर्धमानो महाबाहुस्तेजो बलसमन्वितः ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम् भयेन कामादपरे गणशः पर्यवारयन् स तु लब्ध्वा बलम् राजन्नुग्रसेनस्य सम्मतः वसुदेवात्मजः सर्वैर्भ्रातृभिः पुनः निर्जित्ययुधि हत्वा कम्सं अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते, शम्पते ततः माधवेन हतं युधि शूरसेनाधिपं चक्रेकं स पुत्रम् तदा नृपः ससैन्यम् महदुत्थाप्य वासुदेवम् प्रसह्य च अभ्यषिञ्चत्सुतम् तत्र सुतायाजनमेजय